श्रीमन्महाभारतम् सभापर्वणि दुर्योधन संतापे द्विपञ्चाशत्तमो अध्यायः दुर्योधन उवाच दायन्तु विविधम् तस्मै शृणु मे गदतो नघ यज्ञार्थम् राजभिर्दत्तम् महान्तम् धन सञ्चयम् मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् येते ते कीचकवेणूनां छायां रम्यामुपासते खसा एकासना ह्यर्हा प्रदरा दीर्घभेणवः पारदाश्चकुलिन्दाश्च तङ्गणाः परतङ्गणाः तद्वै पिपीलिकं नाम उद्धृतं यत् पिपीलिकैः जातरूपं द्रोणमेयमहार्षुः महार्षु नृपाः कृष्णाल्ललामांश्च मराञ्छुक्लांश्चान्यान् छशिप्रभान् हिमवत्पुष्पजं चैव अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः कारुषे च समुद्रान्ते लौहित्यमभितश्च ये फलमूलाशनाये च किराताश्चर्म वाससः क्रूरशस्त्राः क्रूरकृतस्तांश्च प्रभो चन्दनागुरुकाष्ठानाम् भारान् कालीयकस्य च चर्मरत्नसुवर्णानाम् गन्धानां चैवराशयः राशयः कैरातकीनामयुतं दासीनां च विशाम्पते आहृत्य रमणीयार्थान् दूरजान् मृगपक्षिणः निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् बलिं च कृत्स्नमादाय द्वारितिष्ठन्ति वारिताः कैराता दरदा दर्वाः शूरा वै पारदा वाल्लिकैः सह काश्मीराश्च कुमाराश्च घोरका हंसकायनाः शिबित्रिगर्त यौ धेया कौकुरास्तार्क्ष्या वस्त्रपाः पल्हवैः सह वशातलाश्च सह क्षुद्रकमालवैः शौण्डिकाः कुकुराश्चैव शकाश्चैव विशाम्पते अङ्गावङ्गाश्च पुण्ड्राश्च शाणवत्या गयास्तथा सुजातयः श्रेणिमन्तश्रेयांशस्त्रधारिणः अहर्षुः क्षत्रिया वित्तं शतशोजातशत्रवे वङ्गाः कलिङ्गा मगधास्ताम्रलिप्ताः स पुण्ड्रकाः दौर्वालिका सागरकाः पत्रोर्णाः शैशवस्तथा कर्णप्रावरणाश्चैव बहवस्तत्र भारत तत्रस्था द्वारपालैस्ते प्रोच्यन्ते राजशासनात् कृतकालाः सुबलयस्ततो द्वारमवाप्स्यथ दन्तान् हेमकक्षान् पद्मवर्णान् उथावृतान् शैलाभान् नित्यमत्तां काम्यकंसरः दत्वैकैको दश शतान् कुञ्जरान् कवचावृतान् क्षमावन्तः कुलीनाश्च द्वारेण प्राविशंस्तदा एते चान्ये च चा बहवो गणादिभ्य समागताः अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः राजा चित्ररथो नाम गंधर्वो वासवानुगः शतानि चत्वार्यददधयानां वातरंहसां तुम्बुरुस्तु प्रमुदितो गंधर्वो वाजिनां शतम् आम्रपत्रसवर्णानां मददाद्धेममालिनाम्